उच्चार अहं <tose> Yeah, you're right. srova jaa udaaye udaa aswaya chukraasavi rayo rupa chabuhai paad swade vayaha गाव गाव नाब The sea, the sea, what's up? upa dhanvai yor yop sundara upa upa upa upa swavazo mamadrivi upa upa, upa, upa toz intida sozda अग्रे Audrey... अहं <sup> holam uro pradham गम्बाहोलम्बुरौ स्पृहा पा वा मानासि अध्याये मानस्तु हस्ति ओद्रे वाचमिन्वसा ओः रायिम् विम् बहु sambagalom समो द्रस्यावो वा ओ, ओ, ओ, ओ, ओ, ओ, ओ, ओ, ओ मत्सारो वादच्योताः अपि सोमसाया पवा समो दृश्यावो वाणेशिणा मत्सारो वा मदच्युताः विसमासया भवन्ता इमा दी मादा समुद्रस्य ये विष्टपायि मा नाः मात्सरासो मा दा उभो वा जोतानसो माजा पारि पारि प्रियाः प्रोभवङ्गायिरा समाः मा द्वायज्ञा मायि माहो वा क्षाण इन्द्राय वा अदाय मा दा सोमृतदायि सो स धारः अतिव्यमाति तमायि मार्जा ति आयाः ओ इन्द्रायपे व्यमा शाता ओ पे हो हि मार्जा ति आया ओ इन्द्राया पा भतायि मदः सोमो अतिवयमाः शाति तमाहो हि मार्जा ताया वः पास्वादसा या तामः अभिविश्वानिवारिया त्वंसामो वा दृढप्रथमे वि धर्मन् दायिवायेः व्यासो वा मम राः पापमाना सरस्वयि त्रामति धारया मरुत्वन्दो मत्सरा हयाः माइदाम अभाये अभायेः प्राय उभो वा प्रातो इहा द्रव परिपोः सन्निषेदा ओयिनृभिः इहा पुना न अभि वाजमर्ष श्वम् इहा हत्वा वाजिनो हर्जयन्तः ओच्छ इहा वर्हायिः प्रासना बायिः नाहयान्तायि दातु ये प्रातु द्रवा द्रवा परिगो सन्निषेदा नृभिः ये नृभिः पुनः पुना नाः अभि वाजमर्ष अश्वम् येश्वा नजयन्तः अच्छ येच्छायि बर्हायिः प्रशनाभिः नाये ौवा तायि वा परिघोषा निषेहिदा सायिदायि औहो वा विपुणा नो विवा जामार्ष आर्ष नत्वा वाजनम्मा ध्यायान्ता यान्ता ओ हो ओ हो, हो वा अच्छा बर्हायि शनाभिः हये या वा ताय हावो परिगो सन्निषेद निर्बायि पुना नभिजमर्षा अश्वन्नत्वा भाजिन मज्जयन्ताः आवो उवाच्छा बर्हायिः प्रासना भायि ना मा छाया अच्छा बर्हाइः राशना बा वो वो ो इहा मे देव सा द्वाः पशो मानता माहतायिना जनिता दिवो जनिता प्रेतायव्या जनिताग्ने प्रे जनितासु प्रे जनिता Sya Dhani Dhandra Sya Dhani जन धाव जन धाव जनद् धावे जनद हाये सोमपवा ते जनि तामधीना जनितादायि ता पृथिव्याः जनिताग्नायैः जनिता, जनिता, जनिता सूर्यस्य Hau janat, haau janat, haau janat, janat dhau, janat dhau, janat dhau. Hoi janat, hoi janat, hoi janat, hoi janat janitenda, chajani toh. janadau janadau janadau janadau janate hoi janate haie janase hoi somapava teh janitamateena eladatai ho janitam tadvyaha janitajnayihe janita suryasya janadhav janadhav janadhav janadhav janadhav janadhav janat hoye jana janat hoye janat hoye janitendra jani syajneeto jani tadaba vishnu zasah no no varo no. no. no. no. Yeah, yeah. ya a yeah. yeah ख्याद्र भावे रीया स्याब्रेहातः वृहन्नये सम्बायिष्वा च माहत् विवा शानाः ये शाना अभिप्रियाः निपतये ये सनाः ए नामार्याः गो धियायि एराय हे आसूर्याः स बृहातः ए बृहन्नदी विचक्षणाः को ये दा अभ्यौ हवाहायि प्रियाणि पवाताय च नो हिताः नामान्यताय आसो यसृहतो बृह्दायि रातम् वा युष्वञ्चमारुहते बृहद्देवारि धरायाः वायि चिदास्ना नयाः भो आरता प्रविणा ते सङ्गेन भर्या एव युवतिभा मोहाह्ना प्रसारायिता ये उषसान्दिवये प्राणासा इन्दो नाङ्गालाशा ये अचि कृतदे इन्द्रस्या वायुशान् ये, ये मणि दा द्रा <s> तजरा चो so... a u a l u a a vidyam nam rehede ya yasha ishasmade didihede vadayu ikauha aai samma ्रेः अद्यथाय दिदेहिताय वा देवयोध्यमा सो ने सोना यो रायामा नेतायायि दाना सोमा यस्य क्षेता जैष्णवा <TON> <tok atmospheric lifting choreography>